अथ सप्तनवतम् दशकम् त्रैगुण्याद् भिन्नरूपम् भवति हि भुवने हीनमध्योत्तमं यत् ज्ञानम् कर्ता वसतिरपि सुखं कर्म चाहार भेदाः त्वक्षेत्रत्वन्यषेवादि तु यदिह पुनस्त्वत्परम् तत्तु सर्वम् तदनुभजनतो मङ्क्षु भवेयम् स्वयेवन्यस्तचित्तः सुखमयि विचरन् सर्वचेष्टास्त्वदर्थम् त्वद्भक्तैः सेव्यमानानपि चरितचरानाश्रयन् पुण्यदेशान् दस्यौ विप्रे मृगादिष्वपि च सममतिर्मुच्यमानावमानस्पर्धासु यादि दोषः सततमखिलभूतेषु तुद्भावो यावदेषु स्फुरति न विशदम् तावदेवम् स्युपास्तिम् कुर्वन्नैकात्म्यबोधि झटिति विकसति त्वन्मयोऽहम् चरेयम् त्वद्धर्मस्यास्य तावत् किमपि म् चैनम् भक्तियोगम् द्रढयितुमयि मे साध्यमारोग्यमायुर्दिष्ट्या तत्रापि सेव्यम् तव चरणमहो भेषजा एव दुग्धम् मार्कण्डेयो हि पूर्वम् गणकनिगदित सेवित्वा वत्सरम् त्वाम् तव भट निवहैर्द्रावयामास मृत्युम् मार्कण्डे यश्चिरायुः खलु पुनरपि त्वत्परः निन्ये तपस्यन्न तुल सुखरतिः षट् तु मन्वन्तराणि देवेन्द्रः सप्तमस्तम् सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन् योगोष्म प्लुष्यमाणैर्नतु पुनरशक त्वज्जनम् नरसखः प्राप्तवानस्य पार्श्वं तुष्ट्या तुष्टूयमानः स तु विविधवरैर्लोभितो ननुमिनि द्रष्टुम् मायाम् त्वदीयाम् किल पुनरवृणोद्भक्तितृप्तान्तरात्मा माया दुःखानभिज्ञस्तदपि मृगयते नो न माश्चर्यहेतोः याते त्वय्याशु वाताकुलजलदगळ त्वयपूर्णातिघुर्णत् सप्तार्णो राशिमग्ने जगति सतुजले तु जले सम्भ्रमन् प्रैक्षिष्ट दूरे वटदळ शयनम् कञ्चिदाश्चर्यबालम् त्वामेव श्यामलाङ्गम् वदन सरसि जन्यस्तपादाङ्गुलीकम् दृष्ट्वा त्वाम् हृष्टरोमा त्वरितमुपगत स्प्रष्टुकामो मुनीन्द्र श्वासेनान्तर्निविष्टः पुनरिह सकलम् दृष्टवान् विष्टपौघम् भूयोऽपि श्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षैर्मोदाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् गौर्या सार्धम् तदग्रे पुरभिदथ गतस्त्वत्प्रिय प्रेक्षणार्थी सिद्धाने वास्य दत्त्वा स्वयमयमजरा मृत्युतादीन् त्सेय स्मर ऋपुर सीयते यूर्तिमक नु सकल सुव्यक्स्यलोके हिन्मराण्यूर्ध्योप्यूर्धं तो मया विकृति विरही तो भाति वैकुंठ तशुपकुले शुद्ध सत्कूपी सच्चि ब्रह्म दया पवन पुपते पा मोगा सप्त नवत